वनम् गते धर्मराजे दुःखशोक परायणाः बभूवुः वृद्धा भृशं शोकेन पीडिताः ततः पौरजनः सर्व शोचन्नास्ते जनाधिपम् कुर्वाणाश्च कथा सत्र ब्राह्मणाः पार्थिवम् प्रति ब्राह्मणा ऊचुः कथम् धर्मात्मा वने निर्जने तस्यानुजाश्च ते कृष्णा च द्रुपदात्मजा च दुःखा सा वसति सावने विदुर उवाच एवम् पौराश्च विप्राश्च सदाराः सह पुत्रकाः स्मरन्तः पाण्डवान् सर्वे बभूवुर्भृश दुःखिताः आविद्धा इव शस्त्रेण नभ्यनन्दन् कथञ्चन सम्भाष्यमाणा अपि ते न कञ्चित् प्रत्यपूजयन् न भुक्त्वा न शयित्वा दिवानिशि शोकोपहत विज्ञाना नष्ट इवाभवन् यदवस्था बभूवार्ता अयोध्या नगरी पुरामे वनङ्गते दुःखाद्धृतराज्ये स लक्ष्मणे तदवस्थम्बभूवार्तमद्येदङ्ग च साह्वयम् गते पार्थे वनम् दुःखाद्धृतराजे सहानुजैः वैशम्पायन उवाच विदुरस्य वच श्रुत्वा नागरस्य भूयो मुमोह शोकाच्च धृतराष्ट्रस्स ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः द्रोणन् द्वीपमन्यन्त राज्यम् चास्मै न्य वेदयन्